एवम् प्रलम्भान् विविधान् प्राप्य तत्र विशाम्पते पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः अप्रहृष्टेन मनसा राजसूये महाकृतौ प्रेक्ष्यतामद्भुताम् ऋद्धिम् जगामगजसाह्वयम् पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः दुर्योधनस्य नृपतेः पापा मतिरजायत पार्थान् सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् कृत्स्नं चापि हितं लोकमाकुमारं कुरुद्वह महिमानं परं चापि पाण्डवानां महात्मनां विवर्ण समपद्यते